श्रीमद्भागवतमहापुराणं चतुर्षु स्कन्धः प्रथमोऽध्यायः देवावचुः यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायते वयम् अथा स्मदंसभूतास्ते आत्मजालोकविश्रुताः भवितारोङ्गभद्रं ते विस्रप्स्यन्ति च ते यशः एवं कामपुरं दत्त्वा प्रतिजग्मु सुरेश्वराः सभाजितास्तयो सम्यग् दम्पत्योर्मिषितोस्ततः सोमोऽभूब्रह्मणोऽ सेनां दत्तो विष्णोऽस्तु योगवीर्दुर्वासा शङ्करस्यांसो निबोधाङ्गिरसप्रजा श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसु तु कुञ्जकाः शनिबाली कुहुराका चतुर्थ्यानुमतिस्तथा तत्पुत्रावपरां वास्तां ख्यातौ स्वारोचिसेन्तरे उतथ्यो भगवान् साक्षात् ब्रह्मिष्ठश्च बृहस्पतिः पुलस्थ्यो जनिं जनयत्पत्न्याम् अगस्त्यं च हविर्भुवे सौर्यजन्मनिन्द्रग्निर्विश्वाच महातपाः तस्य यक्षपतिर्देव कुबेर त्रिं विदासुतः रावणकुम्भकर्णश्च तथान्यस्यां विभीषणः पुलहश्च पुलहस्यं जतिर्भार्यात्रीन् सुतसती सुतान् कर्मश्रेष्ठं वरीयांशं सहिष्णुं च महामते प्रतोरपि क्रियाभार्या बालखिल्या न सूयत ऋषिंषष्ठी सहस्राणि ज्वलतो ब्रह्म तेजसा ऊर्जायां जग्गिरे पुत्रावशिष्टस्य परं तप चित्रकेतुप्रधानास्ते सप्तब्रह्मर्षयो मलाः चित्रकेतुसुरोजिश्चिश्च गिरिजामित्र एव च उल्बणो वशुभिद्यारोद्युमान् शक्त्यादयोपरे चित्ते त्वथर्वणपत्नीलेभे पुत्रं धृतव्रतं दध्यञ्चम् अश्वशीर्षं भृगोर्वंशं निबोधवे भृगुख्यात्यां महाभागपत्न्यां पुत्रान् जीजनत धातारं च विधातारं श्रियं च भगवन् पराम् आयतिं नियतिं चैव सुते मेरुतयोरदात् ताभ्यां तयोर्भवतां मृकण्डप्राण एव च मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः कविश्च भार्गभूजस्य भगवान् शनाशितः त एते मुनिय छद्दर्लोकान् सर्गैर्भावयन् एष कर्तं दोषित्य सन्तानकथितस्तव परः प्रसूतिं मानवीं दक्ष उपि ये मे यजात्मजः तस्यां ससज दुहित्रिः षोडशामललोचनाः त्रयोदशादाद्धर्माय तथैकामग्नये विभो पितृभ्यैकां युक्तेभ्यो भवायैकां भवते श्रद्धा बुद्धिर्मेधा तु दीक्षा हिं मूर्ति धर्मस्य पां पत्न्ययः श्रद्धासुतशुभं मैत्री प्रसादम् अभयं दया शान्ति सुखं मुदं तुष्टि स्मयं पुष्टिरसूयत योगं क्रियोन्नतिर्दर्परमर्थं बुद्धिरसूयत मेधास्मृतिं तु दीक्षा तु क्षेमं श्रीप्रश्रयं सुतम् मूर्ति सर्वगुणोत्पत्तिर्नरनारायणावृषि ययोर्जन्मन्यदों विश्वम् अभियन्नन्द सुनिवृतं मनांसि कुकुभो वाता प्रसेदु सरितोद्रयः दिव्यवाद्यन्ततुर्याणीपेतुकुसुमवेष्टयः मुनि अस्तुष्टोस्तुष्टां च गुरुगन्धर्वकिन्नराः निद्यन्ते स्म श्रियो देव्य आसीत् परं मङ्गलम् देवा ब्रह्मादय सर्वे उपतस्थोरभीष्टवैः देवा उचुः व्योमाययाविरचितं निजयात्मनेदं खेरूपभेदमिव तं प्रतिलक्षणाय एतेन धर्मसदने ऋषिमूर्तिनाद्य प्रादुश्चकारपुरुषाय नमः परस्मै सोऽयं स्थितिव्यतिकं करोपशमाय दृष्टान् सृष्टान् सत्त्वेन न सुरगणाननुमेय तत्त्वः दि स्यादभ्रक्रौणेन विलोकनेन यच्छीनिकेतमममलं चिबतारविन्दम् एवं सुरगणैस्तात् भगवान् तावभीष्टुतौ दब्धावलोकै ययतुरर्चितौ गन्धमादनम् ताभिमौ वै भगवतो हरेरंसा विहागतौ भारव्ययाय च भूव कृष्णौ यदि कुरुद्वयौ स्वाहाभिमानिनश्चाग्नेरात्मजास्त्रीणञ्जि जनत पावुकम् पवमानं च शुचिं च समभवन् चत्वारिंशच्च पञ्च त एवैको न पञ्चासन् साकं पितृपितामहे वेतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभिः आग्नेय इष्टयो यज्ञे निरूप्यन्ते ज्ञेयस्तु ते अग्निस्वात्ता बहिषदशोम्यापितर आजिपाः साग्नयोग्न्यग्न्यस्तेषां ग्या पत्नी दाक्षायणी सधा तेभ्यो दधार कन्ये द्वे वयुनाम् धारुणिं सदा उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे भवस्य पत्नी तु सती भवम् देवमनुव्रता आत्मन सजसम्पुत्रम् न रेभे गुणशीलतः पितर्यन्ततिरूपे स्वे भवा जानागभीरुषा अप्रौढैवात्मनात्मानम् अजहाद्योगसंयुता श्री श्रीमद्भापुते महापुराणे प्रपुञ्चां चयितायां चतुष्स्कन्धे विदुर्मैत्रेयसंवादे प्रथमोऽध्यायः